देवा गङ्गा जडासूटाय नमः ॐ देवेन्द्ररक्षकाय नमः देवान्तकवरप्रदाय नमः ॐ देवासुराराध्याय नमः ॐ देवासुरवरप्रधाय नमः ॐ देवासुरतपस्तुष्टाय नमः ॐ देवासुरगणाग्रण्ये नमः ॐ देवासुरगणाध्यक्षाय नमः ॐ देवासुरेश्वराय नमः ॐ देवासुरगुरवे नमः ॐ देवासुरनमस्कृताय नमः ॐ देवासुरमहामात्राय नमः ॐ देवासुरमहाश्रयाय नमः ॐ देवासुरमहेश्वराय नमः ॐ देवार्षिदेवासुरवरप्रधाय नमः ॐ देवाधिदेवाय नमः ॐ देवात्मने नमः ॐ देवानाथाय नमः ॐ देवाप्रियाय नमः ॐ देवाज्ञाय नमः ॐ देवाचिन्तकाय नमः ॐ देवानां सतक्रतवे नमः ॐ देव्याधिप्रीतिकराय नमः ॐ देवतानवदैत्यानां गुरवे नमः ॐ देवगर्भाय नमः ॐ देवगणार्चितसेवितलिङ्गाय नमः ॐ देवसिंहाय नमः ॐ देवमुनिप्रवरार्चितलिङ्गाय नमः ॐ देवकीसुतकौन्तेयवरदाय नमः ॐ देवानामीश्वराय नमः ॐ देव्यप्रियहराय नमः ॐ देवराजाय नमः ॐ देवाधिपतये नमः ॐ देवासुरपतये नमः ॐ देवदेवे मयाय नमः ॐ देवासुरविनिर्मात्रे नमः ॐ देवासैन्यपतये नमः ॐ देवसाय नमः ॐ देवासुर नमः ॐ देवापृथे नमः देवमान्याय नमः ॐ देवतानवगपञ्चब्रह्मात्मने नमः ॐ देवताप्रियाय नमः ॐ देवासुरगुरुस्तव्याय नमः ॐ देवा देवेसाय नमः ॐ देवा भस्मकणप्रियाय नमः देवशिखामणये नमः ॐ देवशिकान्तकाय नमः ॐ देवसिन्धुतरङ्गशिखरस्थितुःसितजटादराय नमः ॐ देवादिदेवेशाय नमः देवराजारिमर्दनाय नमः ॐ देवानुगतलिङ्गिणे नमः ॐ देवार्चितमूर्तये नमः ॐ देव्याकार्यार्थधायिने नमः ॐ देवतात्मने नमः ॐ देवर्षये नमः ॐ देवासुरगणाश्रयाय नमः ॐ देवासुरपरायणाय नमः ॐ दैत्यकुरवे नमः ॐ दैत्यवताय नमः दैवलिङ्गाय नमः ॐ दैवतनाताय नमः ॐ दशभाघवे नमः ॐ दशहस्ताय नमः ॐ दसखराय नमः ॐ दसदिग्भालपूजिताय नमः ॐ दिशास्त्राय नमः ॐ दिशावासाय नमः ॐ दिशाम्पतये नमः ॐ दृश्यादृश्य ्याय नमः ॐ देशानाम् ब्रह्मावर्ताय नमः ॐ देशकालपरिज्ञात्रे नमः ॐ देशो नमः ॐ दंशृणे नमः ॐ दंष्टात्मने नमः ॐ दंष्टाभृगुभीतरस्या प्रौढदक्षिणवदनाय नमः ॐ दुष्कृदघ्ने नमः ॐ दुष्प्रेष्याय नमः ॐ दुष्प्रदर्शाय नमः दुष्टानाम् विलयाय नमः दुष्टानां पतये नमः ॐ दुष्प्रकम्पाय नमः ॐ दुष्टमृत्यवे नमः ॐ दुष्टावग्रहवारकाय नमः ॐ दुष्टभूतनिषूदनाय नमः ॐ दुष्टभयताय नमः ॐ दुष्टधूराय नमः ॐ दुष्टहन्त्रे नमः ॐ दृष्टिज्ञाय नमः ॐ दृष्टये नमः ॐ ष्टलयाय नमः ॐ दोषाकरकलामौलये नमः ॐ दुःस्वप्ननिवारकाय नमः ॐ दुःस्वप्ननाशनाय नमः ॐ दुस्सहाय नमः ॐ दुस्सहहर्षणाय नमः ॐ दृहिणाय नमः ॐ दृहिणां भोजनयन दुर्लभाय नमः ॐ देहाय नमः ओम शुद्ध हधाव्यशुद्धसत्वात्मक प्रकटनाय नम दलितानिकराय नमः ॐ दलदम्बुजनेत्राय नमः ॐ दलदिन्तरनीलग्रीवाय नमः ॐ दलदलज्ञनजनभाषाय नमः ॐ दलाधादिने नमः ॐ दक्षाय नमः ॐ दक्षसुयज्ञविनाशनलिङ्गाय नमः ॐ दक्षकन्यापतये नमः ॐ दक्षवरप्रधाय नमः ॐ दक्षमकद्वंशिने नमः दक्षात्वरहराय नमः ॐ दक्षनाशकराय नमः ॐ दक्षज्ञाय नमः ॐ दक्षाध्वरनाशकाय नमः ॐ दक्षयज्ञान्तकाय नमः ॐ दक्षयाघापहारिणे नमः ॐ दक्षयज्ञहराय नमः ॐ दक्षमकान्तकाय नमः ॐ दक्षारये नमः ॐ दक्षात्वरा न्तकाय नमः ॐ दक्षयज्ञप्रपञ्चकाय नमः ॐ दक्षाध्वरविनाशकाय नमः ॐ दक्षराध्याय नमः ॐ दक्षयज्ञविनाशनाय नमः ॐ दक्षिणाय नमः ॐ दक्षा नमः ॐ दक्षिणावभृताय नमः ॐ दक्षिणामूर्तये नमः ॐ दक्षिणाकराय नमः दक्षिणे नमः दक्षिणाराध्याय नमः ॐ दक्षिणप्रेमसन्तुष्टाय नमः ॐ दक्षिणावरधाय नमः ॐ दक्षिणामूर्तिरूपधृते नमः ॐ दाक्षिण्यशीलाय नमः ॐ दाक्षायणीसमाराध्याय नमः ॐ दीक्षाशालिने नमः ॐ दीक्षारये नमः ॐ दीक्षिताय नमः ॐ दीक्षिताभीष् तधाय नमः ॐ दकारस्य धन्वन्तरी दैवताविषज्वरविनाशने विनियोग नमः ॐ ध्वजिने नमः ॐ ध्वजिनिपतये नमः ॐ धृतिमते नमः ॐ धात्रे नमः ॐ धात्रीक्षाय नमः ॐ धातुमण्डिताय नमः ॐ धात्रीपतये नमः ॐ धी कृते नमः ॐ धनतेसाय नमः ॐ धनधाय नमः ॐ धनाधिपाय नमः ॐ धनात्यक्षाय नमः ॐ धनकृते नमः ॐ धनधान्यसन्तृतिधाय नमः ॐ धनधान्यसमृद्धिताय नमः ॐ धर्वेधाय नमः ॐ धन्विने नमः ॐ धन्याय नमः ॐ धनुषे नमः ॐ धनाध्यक्षाय नमः ॐ धनञ्जयाय नमः ॐ धनुर्गस्थाय नमः ॐ धनाय नमः ॐ धन्वन्त्रये नमः ॐ धनेश्वराय नमः ॐ धनमालाधराय नमः ॐ धनाकराय नमः ॐ धनप्रियाय नमः ॐ धनप्रियाय नमः ॐ धनुर्धराय नमः ॐ धम्नागमाय नमः धन्याय नमः ॐ ध्वनये नमः ॐ ध्यानगम्याय नमः ॐ ध्यानरूपाय नमः ॐ ध्यानाय नमः ॐ धीमते नमः ॐ धूम्राय नमः ॐ धूमकेतनाय नमः ॐ धूमकेतवे नमः ॐ धूमपाय नमः ॐ धूम्रवर्णाय नमः ॐ धूम्राक्षाय नमः ॐ ध्यायते नमः ॐ ध्येयाय नमः ॐ ध्येयगम्याय नमः ॐ ध्येयध्यानाय नमः ॐ ध्येयानामभिध्येयाय नमः ॐ ध्येयतमाय नमः ॐ धर्माय नमः ॐ धामिष्ठाय नमः युक्ताय नमः ॐ धर्मचारिणे नमः ॐ धर्मसेतुपालकाय नमः ॐ धर्मधाराय नमः ॐ धर्मदाम्ने नमः ॐ धर्मराजाय नमः ॐ धराय नमः ॐ धर्मपाय नमः ॐ धर्मार्थकामकैवल्यशुचकाय नमः ॐ धर्मवृक्षाय नमः धर्मसाधारणाय नमः ॐ धर्माध्यष्टपरायणाय नमः ॐ धर्मत्यक्षाय नमः ॐ धर्मादिगम्याय नमः ॐ धर्मार्थकाममममोक्षाणाम् बीजरूपाय नमः ॐ धर्मवक्त्रे नमः ॐ धर्मवे नमः ॐ धर्मनिपुणाय नमः ॐ धर्मप्रवर्तकाय नमः ॐ धर्मा धर्मप्रवर्तकाय नमः ॐ धर्मकर्मणे नमः ॐ धर्मधेनवे नमः ॐ धर्मवर्ज्ञाय नमः ॐ धर्मात्मने नमः ॐ धर्मदायिने नमः ॐ धर्मनायकाय नमः ॐ धर्मनिश्चयाय नमः ॐ धर्मो धनप्रदाय नमः ॐ धरणीधारकाय नमः ॐ धराय नमः ॐ दर्शनाथम्ने नमः ॐ धरौत्तमाय नमः ॐ धराधात्रे नमः ॐ धरणीधराय नमः धराधीशाय नमः ॐ धार्मिकाय नमः ॐ धारणाय नमः ॐ धारणाभिरताय नमः ॐ धारणाप्यासिनां पुरस्थिताय नमः ॐ धीराय नमः ॐ धीरविमोचकाय नमः ॐ धीधीरकाय नमः ॐ धुर्याय नमः ॐ दुरीणाय नमः ॐ दुरन्तराय नमः ॐ दूर्जटये नमः ॐ दूर्वहाय नमः ॐ धैर्याग्रधुर्याय नमः ॐ धैर्यधाय नमः ॐ धैर्यवर्गकाय नमः ॐ धैर्यविभूषिताय नमः ॐ धौरेयाय नमः ॐ धवलस्यामरक्थानाम् नमः ध्रुवाय नमः ॐ ध्रुवभद्धानां ऋषीणां प्रभवे नमः ॐ ध्रुवनिष्णानां ऋषीणां पतये नमः ॐ दृष्टये नमः ॐ दृष्णवे नमः ॐ दृष्टेश्वराय नमः ॐ ध्वस्तमनोभवाय नमः ॐ नकारस्य विनायको देवताविघ्ननासने विनियोग नमः नकाररूपाय नमः ॐ नक्ताय नमः ॐ नक्तञ्चराय नमः ॐ नाकेशपूज्याय नमः ॐ नैकस्मै नमः ॐ नैकसानुचराय नमः ॐ नैकात्मने नमः ॐ नैककर्मकृते नमः ॐ नैकस्मृगाय नमः ॐ नकचिन्नात्मभूषीर्षाय नमः ॐ नकांशुषयनिर्ध रेशाय नमः ॐ निखिलागमसंसेव्याय नमः ॐ नखप्रियाय नमः ॐ नगाय नमः ॐ नग्नाय नमः ॐ नग्नवेशधराय नमः ॐ नग्नव्रधराय नमः ॐ नगेन्द्रकन्यकाभां कवीक्षिताय नमः ॐ नगेन्द्रतनया शक्ताय नमः ॐ नगेन्द्रतनया प्राणवल्लभाय नमः ॐ नगेन्द्रतनया प्रियाय नमः ॐ नगप्रवरमध्यस्थाय नमः ॐ नागवाहनाय नमः ॐ नागनाथाय नमः ओम् नागहाराय नमः ॐ नागहस्ताय नमः ॐ नागालङ्कृतपाधाय नमः ॐ नागेश्वराय नमः ॐ नागनारीव्रताय नमः ॐ नागशूटाय नमः ॐ नागाङ्गाभरणाय नमः ॐ नागभोगोपवीत्याय नमः ॐ नागयज्ञोपवीताय नमः ॐ नागकङ्कणहस्ताय नमः ॐ नागरूपाय नमः ॐ नागकङ्कणाय नमः ॐ नागहारधृते नमः ॐ नागकुण्टलकर्णाय नमः ॐ नागाभरणभूषिताय नमः ॐ नागराजैरलम् कृताय नमः ॐ नागेन्द्रयज्ञोपवीतशोभिताय नमः ॐ नागेन्द्रवदनाय नमः ॐ नागेन्द्रहाराय नमः ॐ नागेन्द्रधमनाय नमः ॐ नागेन्द्रभूषणाय नमः ॐक्रोधरूपाय नमः ॐक्रोधवृषकर्णास्थिताय नमः निगमाय नमः ॐ निगमालाय नमः ॐ निगमाचारतत्पराय नमः ॐ निगमोच्छ्वासाय नमः ॐ निग्रहाय नमः ॐ निचेरवे नमः ॐ निजाय नमः ॐ निजात्मने नमः ॐ निजपादाम्बुजाशक्तुशुलभाय नमः ॐ निजाक्षिजाग्निसन्दत्रिपुराय नमः ॐ नटाय नमः ॐ नटवराय नमः ॐ नटश्चर्याय नमः ॐ नटवर्याय नमः ॐ नटप्रियाय नमः ॐ नटनाग्योत्सवोल्लासहृदयाय नमः ॐ नित्याय नमः ॐ नित्यानां नित्याय नमः ॐ नित्यतृप्ताय नमः ॐ नित्यनर्तनाय नमः ॐ नित्यमाश्रमपूजिताय नमः ॐ नित्यनीतिशु धात्मने नमः ॐ नित्यवर्जिस्विने नमः ॐ नित्यनित्याय नमः ॐ नित्यानन्दाय नमः ॐ नित्यमुक्ताय नमः ॐ नित्यशक्तिशिरसे नमः ॐ नित्यमुग्राय नमः ॐ नित्यमधिवासितसुवाससे नमः ॐ नित्यचरात्मने नमः ॐ नित्यमुद्धबुद्धमकुटाय नमः ॐ नित्यसुन्दराय नमः ॐ नित्यज्ञानाय नमः ॐ नित्यवैराग्याय नमः ॐ नित्यैश्वर्याय नमः ॐ नित्यसत्याय नमः ॐ नित्यधृतधैर्याय नमः ॐ नित्यक्षमाय नमः ॐ नित्यस्वस्थाय नमः ॐ नित्यात्मबोधाय नमः ॐ नित्यादिषटाश्रयत्वाय नमः ॐ नित्यसिद्धाय नमः ॐ नित्योत्साहाय नमः ॐ नित्यानन्दस्वरूपकाय नमः ॐ नित्यमङ्गलविग्रहाय नमः ॐ नित्यानभाय महिम्ने नमः ॐ नित्यबुद्धाय नमः ॐ नित्यक्रुद्धाय नमः ॐ नित्यमङ्गलाय नमः ॐ नित्यनीतिशुद्धात्मने नमः ॐ नीतिमते नमः ॐतिकृते नमः ॐतिविधे नमः ॐ नीतिवत्सलाय नमः ॐ नीतिस्वरूपाय नमः ॐ नीतिसंश्रयाय नमः ॐ नीतये नमः ॐ नीतिमतां श्रेष्ठाय नमः ॐ नीतिज्ञाय नमः ॐ नीतिकुशलाय नमः ॐतिधराय नमः ॐ नीतिवित्तमाय नमः ॐ नीतिप्रधाद्रे नमः ॐतिविप्रियाय नमः ॐ नीतिप्रियाय नमः ॐ नृत्यते नमः ॐ नृत्यशीलाय नमः ॐ नृत्यप्रियाय नमः ॐ नृत्यस्थिताय नमः ॐ नित्यनृत्याय नमः ॐ नेत्रे नमः ॐ नेत्रसहस्रयुक्ताय नमः ॐ नदथे नमः ॐ नदीप्रियाय नमः ॐ नदीधराय नमः ॐ नदी स्थिताय नमः ॐ नदीरूपाय नमः ॐ नदी नमः ॐ नदीनां प्रभवे नमः ॐ नदानां प्रभवे नमः ॐ नाय नमः ॐ नानुभवरूपाय नमः ॐ नामत्ये स्थिताय नमः ॐ नाक्षरवदनाय नमः ॐ नारूपाय नमः ॐ नाबिन्दुकलातीताय नमः ॐ नामनोहराय नमः ॐ नान्दुकलात्मकाय नमः ॐ नामार्गप्रबुद्धाय नमः ॐ नाकाराय नमः ॐ नान्ताय नमः ॐ नात्मने नमः ॐ नन्दिने नमः नन्दात्वर्थसुरर्चिताय नमः ॐ नन्द्याय नमः ॐ नन्दिवाहनाय नमः ॐ नन्दिभृङ्गिमुखनेकसंस्तुताय नमः ॐ नन्दनाय नमः ॐ नन्दीश्वरभ्रमतनाथमहेश्वराय नमः ॐ नन्दिवर्धनाय नमः ॐ नन्दये नमः ॐ नन्दिविद्यास्वरूपाय नमः ॐ नन्दिकराय नमः ॐ नन्दीश्वराय नमः ॐ नन्दिचक्राङ्गिताय नमः ॐ नन्दिवक्त्राय नमः ॐ नन्दिकेश्वराय नमः ॐ नन्दिनिलयाय नमः ॐ नन्दिताशेषभुवनाय नमः ॐ नन्दिकेशमाराध्याय नमः ॐ नान्दीश्रार्धप्रियाय नमः ॐ निधाय नमः ॐ निधिष्ठाय नमः ॐ नादाय नमः ॐ निदये नमः ॐ निधि नमः ॐ निधिपतये नमः ॐ निधिप्रदाय नमः ॐ निधिरूपकाय नमः ॐ निदनाय नमः ॐ निदनाधिपाय नमः ॐ नानाभुवनाधिकर्त्रे नमः ॐ नाना जगताम्बिदात्रे नमः ॐ नानाविधायुधोब्धासितसभाहवे नमः ॐ नानादिसौखनायकाय नमः ॐ नानाघानविशारदाय नमः ॐ नानारूपधराय नमः ॐ नानामन्त्ररहस्यविधे नमः ॐ नानाशास्त्रविशारदाय नमः ॐ नानाकृविधानज्ञाय नमः ॐ नानाभीष्टवरप्रदाय नमः ॐ नानाविधानेकरत्नलसत्कुण्डलमण्डिताय नमः ॐ नानाविद्यैकसंश्राय नमः ॐ नानाभूतधराय नमः ॐ नपुंसकाय नमः ॐ निपुणाय नमः ॐ निपुणप्रियाय नमः ॐ निपातिने नमः ॐपप्रियाय नमः ॐ नभोरूपाय नमः ॐ नभस्तलाय नमः ॐ नभस्याय नमः ॐ नभस्पतये नमः ॐ नभोयोनये नमः ॐ नाभये नमः ॐ नाभीमण्डलसंस्थाय नमः ॐ नमः शिवाय मन्त्रातिधैवताय नमः ॐ नमस्कारप्रियाय नमः ॐ नम्राय नमः ॐ नमन्तिलिम्पनायकाय नमः ॐ नमिताचलनायकाय नमः ॐ नामरूपविवर्जिताय नमः ॐ नाम सङ्कीर्तनप्रियाय नमः ॐ नामरहिताय नमः ॐ नाम रूपक्रियात्मने नमः ॐ नाम प्रियाय नमः ॐ नाम पारायणप्रीताय नमः ॐ निमित्ताय नमः ॐ निमित्तस्थाय नमः ॐ निमिषाय नमः ॐ निमेषप्रभवे नमः ॐ नैमिषारण्यनिलयाय नमः ॐ नैमित्तिकार्चनप्रीताय नमः नयाय नमः ॐ नयज्ञाय नमः ॐ नयनद्भूतदहनालीतमन्मथाय नमः ॐ नयनाग्निप्लुष्टमारसलभाय नमः ॐ नायकाय नमः ॐ न्यायाय नमः ॐ न्याय निर्वाहकाय नमः ॐ नाय निर्वहणाय नमः ॐ न्याय गम्याय नमः ॐ नियताय नमः ॐ नियतात्मने नमः ॐ नियमाय नमः ॐ नियमाश्रयाय नमः ॐ नित्यकल्याणाय नमः ॐ नियमाध्यक्षाय नमः ॐ नियन्त्रे नमः ॐ नियमिधेन्द्रियवर्धनाय नमः ॐ नरनारीशरीराय नमः ॐ नरसिंहमः नमः नरनारायणाय नमः ॐ नरसिंहाय नमः ॐ नरसिंहनिपातनाय नमः ॐ नरसिंहमहादर्भधातिने नमः ॐ नरसिंहार्चितपधाय नमः ॐ नरवृक्षमाय नमः ॐ नरसिरोरचितमणिकुण्डलाय नमः ओं नरवरयुवतीवर्धराय नमहान् ॐ नरकाय न महान् ॐ नरवाहनाय नमहा ॐ नरकक्लेशसमनाय नमहान् ॐ नरेशाय नमः ॐ नरकान्तकाय नमः ॐ नरनादप्रियाय नमः ॐ नरकान्तकरामोदसायकाय नमः ॐ नरनारायणार्चिताय नमन् ॐ नराय नमः ॐ नरा दीपाय नमः ॐ नर्तकाय नमः नर्तनवित्प्रियकारिणे नमः ॐ नर्तनवादप्रियाय नमः ॐ नरातव्रातवाय नमः ॐ नमीलापविसारताय नमः ॐ नरकण्ठीरवध्वंससन्नद्धसरभाय नमः ारायणाय नमः ॐ नारीनरशरीराय नमः नारदादिमुनीश्वरस्तुतवैभवाय नमः ॐ नारायणप्रियाय नमः ॐ नारदादिसमाराध्याय नमः ॐ नारीमानमोहनाय नमः ॐ नारदाय नमः ॐ नारदादिमहायोगिभृतसेविताय नमः ना ॐ नारायणसमाश्रिताय ना नमः ना ॐ निर्मलाय नमः ॐ निर्लेपाय नमः ॐ निर्विगल्पाय नमः ॐ निरहङ्कारिणे नमः ॐ निरञ्जनाय नमः ॐ निराधाराय नमः ॐ निरक्षराय नमः ॐ निरामयाय नमः ॐ निरातुम्काय नमः ॐ निरालम्भाय नमः ॐ निरीशाय नमः ॐ निरवध्याय नमः ॐ निरीहाय नमः ॐ निर्वाणाय नमः ॐ निर्गुणाय नमः ॐ निर्मायाय नमः ॐ निरालयाय नमः ॐ निरलोकाय नमः ॐ निरवग्रहाय नमः ॐ निर्जीवजीवनाय नमः ॐ निरजाय नमः ॐ नीरजाय नमः ॐ निर्विकल्पार्थरूपिणे नमः ॐ निर्गुणात्वरूपाय नमः ॐ निरङ्गाय नमः ॐ निरन्तरपपरनन्दपदाय नमः ॐ निराभासाय नमः ॐ निर्मलज्ञानविग्रहाय नमः ॐ निर्विकाराय नमः ॐ निरुपद्रवाय नमः ॐ निरवधिगकरुणाय नमः ॐ निर्द्वन्द्वाय नमः ॐ निर्लिप्ताय नमः ॐ निरवतिविभवाय नमः ॐ निरुपाधिकाय नमः ॐ निरकाराय नमः ॐ निर्धयाय नमः ॐ निर्बीजाय नमः ॐ निराशिषे नमः ॐ निरुत्पत्तये नमः ॐ निरावरणधर्मज्ञाय नमः ॐ निर्व्याजाय नमः ॐ निर्व्यग्राय नमः ॐ निर्वद्यपधोपायाय नमः ॐ निर्गुणस्थाय नमः ॐ निर्मलप्रभाय नमः ॐ निर्मलभास्तितशोभितलिङ्गाय नमः ॐ निरङ्कुशाय नमः ॐ निर्मधाय नमः ॐ निरानन्दाय नमः ॐ निर्मलस्फटिकाकृतये नमः ॐ निर्विशेषाया बी वियधीन्द्रशाभवत्येजोमयवपुषे नमः ॐ निर्गुणाया विगुणत्रयात्म मायासप्लध्वप्रकटनाय नमः निर्वृतिकारणाय नमः ॐ निरास्पदाया विस्वयमसविधाराय नमः ॐ निर्मर्यादाय नमः ॐ निरुत्योगाय नमः ॐ निरुपमाय नमः ॐ निर्भयाय नमः ॐ निरपायाय नमः ॐ निलिम्पनायकाय नमः ॐ नलिजमूतनिरस्वनाय नमः ॐ नीलचिकुराय नमः ॐलरुचये नमः ॐ नीलकण्ठाय नमः ॐललोकिताय नमः ॐ नीलकेशाय नमः ॐलाय नमः ॐ नीलमौलये नमः ॐ नीलग्रीवाय नमः ॐ नीलशिखण्ठ य नमः ॐ नेलघलाय नमः ॐ नवशक्तिमते नमः ॐ नवहाटकनिर्माण नमः ॐ नवनिधिप्रदाय नमः ॐ नवग्रहस्वरूपाय नमः ॐ नवग्रहार्चितपदाय नमः ॐ नवरत्नजनोपेतकिरीताय नमः ॐ नवरत्नगुणोपेतदिव्यनूपुरभूषिताय ॐ नवच्छक्रमः ॐ नवस्तलस्य ॐ नवलिङ्गमयाकारशोभिधाय ॐ नवकोडिगणाराध्यपादुकाय नमः ॐ नवनन्दीश्वरस्तोत्रपरीताय नमः ॐ नवनादार्पितान्धकटाक्षाय नमः ॐ नवब्रह्मशिकोतंसविज्ञाताय नमः ॐ नवनीताधिमृदुलमानसाय नमः ॐ नव नारायणाश्रान्तनिधयेयाय नमः ॐ नवमोहतमपङ्कषालनाय नमः ॐ नवसिद्धसमाराध्याय नमः ॐ नम ब्रह्मार्चितपदाय नमः ॐ नव नागनिसेविताय नमः ॐ नव दुर्गार्चनप्रियाय नमः ॐ नव सूत्रविधानविधे नमः ॐ नवर्षिगणसेविताय नमः ॐ नवचन्दनलिप्ताङ्गाय नमः ॐ नवचन्द्रकलादराय नमः ॐ नव नमः नवरत्रविभूषिताय नमः ॐ नव भस्मविदिग्धाय नमः ॐ नवभन्तविमोचकाय नमः ॐ नवनीतप्रियाहाराय नमः ॐ नव्यहव्याघभोजनाय नमः ॐ नवः फलमणये नमः ॐ नवाय नमः ॐ नवात्मने नमः ॐ नवात्मतत्त्वरूपाय नमः ॐ नं वामभाहुकटितटाय नमः ॐ निवेदनाय नमः ॐ निवेष्टाय नमः ॐ निव्यादिने नमः ॐ निवृत्तात्मने नमः ॐ निवृत्ताय नमः ॐ निवृत्तिकलात्मकसर्वाङ्गाय नमः ॐ नासारूटाय नमः ॐ निशाचराय नमः ॐ निशाचारिणे नमः ॐ निशाकराय नमः ॐ निशालयाय नमः ॐ निचाराय नमः ॐ निचरगणाकृतये नमः ॐ निश्चलाय नमः ॐ निशुंभग्नाय नमः ॐ निस्वासगमलोचनाय नमः ॐ निश्रेयसलयाय नमः ॐ नष्टशोकाय नमः ॐ निषङ्गिणे नमः ॐ निष्कालायापि सकलाय नमः ॐ निष्कळङ्काय नमः ॐ निष्कारणाधयाय नमः ॐ निष्क्रियाय नमः ॐ निष्कण्टकाय नमः ॐ निष्प्रपञ्चाय नमः ॐ निष्प्रपञ्चात्मने नमः ॐ निष्प्रभाय नमः ॐ निष्ठाशान्तिपरायणाय नमः ॐ नालोकनतत्पराय नमः ॐ नाग्रन्थ्यस्तनिटिलनयनाय नमः ॐ नासापुटविभ्राजितमौक्तिकाय नमः ॐ नासामणिविराजिताय नमः ॐ निस्संघाय नमः ॐ निस्पृहाय नमः ॐ निस्तुलरूपाय नमः ॐ निस्तुललौधार्य सौभाग्यप्रभलाय नमः ॐ निसर्गामलभूषणाय नमः ॐ निस्तुलाय नमः ॐ निस्तरङ्गसमुद्राभाय नमः ॐ नृसिंहसंहर्त्रे नमः ॐ नृसिंहचर्मापदराय नमः ॐ निहिताय नमः ॐ निहन्त्रे नमः ॐ नलीथीधलग्नाम्बुनिर्लेपाय नमः ॐ नक्षत्रमालिने नमः ॐ नक्षत्रमालाभूषणाय नमः ॐ नक्षत्रविग्रहमतये नमः ॐ नक्षत्राणां चन्द्रमसे नमः ॐ नक्षत्रनादसाहस्रभासुराय नमः ॐ नक्ष साधकाय नमः ॐ पकारस्य वायुर्देवता पुष्ट्यर्थे विनियोग नमः ॐ पङ्गजासन पद्मलोचनभूजिदां त्रिसरोरुहाय नमः ॐ पङ्गजहारसुशोभितलिङ्गाय नमः ॐ प्रकाशाय नमः ॐ प्रकाशात्मने नमः ॐ प्रकटाय नमः प्रकृतिदक्षिणाय नमः ॐ प्रकृतेशाय नमः ॐ प्रकृत्यै नमः ॐ प्रकृत्युपगूटरूपाय नमः ॐ प्रकृतीशाय नमः प्रकृतिकल्याणाय नमः ॐ प्रकृतिसाधकाय नमः ॐ प्रकृतिदुरान्ध्रये नमः ॐ प्रकृतिसीन्धराय नमः ॐ प्रकृतिमनोहराय नमः ॐ प्रकृन्तानां पतये नमः ॐ प्राधये नमः ॐ प्रकल्पाय नमः ॐ प्रादक्षिणो नमः ओं बाहुं सव्याय नमः पिङ्गलजटाय नमः ॐ पिङ्गलाय नमः ॐ पिङ्गलाक्षाय नमः ॐ पिङ्गकभर्तिने नमः ॐ पुङ्गवकेतवे नमः ॐ पञ्चब्रह्मात्मकसदाशिवलिङ्गाय नमः ॐ पञ्चब्रह्मात्मकवचाय नमः ॐ पञ्चसादाग्यवदनाय नमः ॐ पञ्चकालात्मकसंवीरसघा य नमः ॐ पञ्चमूर्त्यात्मने नमः ॐ पञ्चमूर्त्यात्मकवदनाय नमः ॐ पञ्चविंशतिमूर्तिप्रतिपादकीर्ध्ववदनाय नमः ॐ पञ्चविंशक्तिमूर्त्यात्मने नमः ॐ पञ्चशक्तयुधिदाय नमः ॐ पञ्चभूषणाय नमः ॐ पञ्चकप्रियाय नमः ॐ पञ्चाक्षराय नमः ॐ पञ्चास्याय नमः ॐ पञ्चयज्ञाय नमः पञ्चविंशतितत्त्वज्ञाय नमः ॐ पञ्चब्रह्मसमुत्पत्तये नमः ॐ पञ्चवक्त्राय नमः ॐ पञ्चशीर्षाय नमः ॐ पञ्चयज्ञप्रपञ्चनाय नमः ॐ पञ्चवर्णाय नमः ॐ पञ्चदशचक्षुषे नमः ॐ पञ्चदशहस्ताय नमः ॐ पञ्चतन्मात्ररूपाय नमः ॐ पञ्चभूतात्मने नमः ॐ पञ्चकर्मेन्द्रियात्मने नमः ॐ पञ्चार्धहेतवे नमः ॐ पञ्चास्य रुद्ररूपाय नमः ॐ पञ्चाशत्कोटिमूर्तये नमः ॐ पञ्चमन्त्रस्वरूपिणे नमः ॐ पञ्चमाय नमः ॐ पञ्चास्यह्णिहाराय नमः ॐ पञ्चाक्षरमयाय नमः ॐ पञ्चाक्षरिडृशे नमः ॐ पञ्चार्थविज्ञानसुताश्रितस्वरूपिणे नमः ॐ पञ्चपादपुष्पगन्दिपदाम्बुजत्वयशोभिताय नमः ॐ पञ्चाननाय नमः ॐ पञ्चमुखाय नमः ॐ पञ्चभूताधिपतये नमः ॐ पञ्चशास्त्रहराय नमः ॐ पञ्चपातकसंहाराय नमः ॐ पञ्चाम्नायस्वरूपिणे नमः ॐ पञ्चगोस्वरूपाय नमः ॐ पञ्चभूतातिवासाय नमः ॐ पञ्चाक्षारनिवासिताय नमः ॐ पञ्चप्राणाय नमः ॐ पञ्चब्रह्मस्वरूपिणे नमः ॐ पञ्चवक्त्राय नमः ॐ पञ्चमूर्ताभिसंयुक्ताय य नमः ॐ पञ्चवदनाय नमः ॐ प्राच्याय नमः ॐ प्राचीनपुरुषाय नमः ॐ प्राच्यात्मने नमः ॐ प्रचेतसे नमः ॐ प्रसुरदिव्याग्नये नमः ॐ प्रशुरदण्डहस्ताय नमः ॐ प्राचीनानामपि गिरामगोष्ट्राय नमः ॐ प्राचीनपुण्यपुरुषाय नमः ॐ पाञ्चरत्राणां विष्णवे नमः ॐ प्रच्छन्याय नमः ॐ प्रशन्तस्फटिगप्रभाय नमः ॐ प्रश्यन्तरूपाय नमः ॐ पुज्झिने नमः ॐ प्रजाध्यक्षाय नमः ॐ प्रजापतये नमः ॐ प्रजाभवाय नमः ॐ प्रजापालाय नमः ॐ प्रजाबीजाय नमः ॐ प्रजनेशाय नमः ॐ प्रजानां परहेतवे नमः ॐ प्रजानां व्यूहहेतवे नमः ॐ प्रजापतीनां पतये नमः ॐ प्रजापतिपतये नमः ॐ प्रज्वलिकायां गिरिजासमेताय नमः ॐ पुञ्जिष्ठेभ्यो नमः ॐ पूज्याय नमः ॐ प्रज्ञाप्रदाय नमः ॐ प्रज्ञानगनरूपिणे नमः ॐ प्रज्ञारूपाय नमः ॐ प्रज्ञपूज्याय नमः ॐ प्राज्ञाय नमः ॐ पटवे नमः ॐ पटशिने नमः ॐ पट्टशरूपधारिणे नमः ॐ पीठत्रयस्वरूपिणे नमः ॐ पण्डिताय नमः ॐ पाण्ड्यसुन्दराय नमः ॐ पाण्डवे नमः ॐ पाण्डुराख्याय नमः ॐ पाण्डुराङ्गाय नमः ॐ पुण्डरीकनिर्भेशनाय नमः ॐ पुण्डरीकनयनाप्ताय नमः ॐ प्रौढाय नमः ॐ प्रणविने नमः ॐ प्रणवस्वरूपाय नमः ॐ प्रणवार्ताय नमः प्रणवातिमन्त्रजनघोत्ववतनाय नमः ॐ प्रणवाक्षरहृदयाय नमः ॐ प्रणवमन्त्रात्मने नमः ॐ प्रणवात्मकाय नमः ॐ प्रणवाय नमः ॐ प्रणदाधिज्ञाय नमः ॐ प्रणवप्रणवेशाय नमः ॐ प्रणदप्तजनातिहराय नमः ॐ प्रणतार्तिहराय नमः ॐ प्राणीतपञ्चार्थप्रयोगपरमाद्भुताय नमः ॐ प्राणायामपराणां प्रत्यक्षाय नमः ॐ प्राणाय नमः ॐ प्राणपालाय नमः ॐ प्राणापानाय नमः ॐ प्राणधाय नमः ॐ प्राणधारणाय नमः ॐ प्राणिनां प्रभवे नमः ॐ प्राणमयाय नमः ॐ प्राणानां सुहृते नमः ॐ प्राणेश्वराय नमः णपानप्रवर्तिने नमः ॐ पुण्याय नमः ॐ पुण्यसञ्चरिणे नमः ॐ पुण्यशालिबन्धवे नमः ॐ पुण्यफलिताय नमः ॐ पुण्यश्रवणकीर्तनाय नमः ॐ पुण्यकीर्तये नमः ॐ पुण्यमूर्तये नमः ॐ पुण्यशरण्याय नमः ॐ पुण्यधात्रे नमः ॐ पुण्या पुण्यफलप्रदाय नमः ॐ पुण्योदयाय नमः ॐ पतिनामकलयादिव्यापारत्रयलक्षितशक्तिमधात्मने नमः ॐ पादाघात्पजनीपतये नमः ॐ पततां गरुडाय नमः ॐ पतञ्जलि व्याघ्रपादसन्तुताय नमः ॐ पतञ्जलि पदङ्गभङ्गजासुहृत्कृपीटयोनिचक्षुषे नमः ॐ पत्तीनाम् पतये नमः ॐ पत्तिसाय नमः ॐ प्रतिसत्याय नमः ॐ प्रतिश्रवाय नमः ॐ प्रतीशात्मने नमः ॐ प्रणतार्तिभञ्चनाय नमः ॐ प्रतापाय नमः ॐ प्रत्यगात्मकाय नमः ॐ प्रतिसर्याय नमः ॐ प्रतिष्ठिताय नमः ॐ प्रपनाय नमः ॐ प्रधाभवते नमः ॐ प्रतिष्ठा कलात्मकनाभ्याकाय नमः ॐ प्रत्याहाराय नमः ॐ प्रत्याहाररथाय नमः ॐ प्रत्याहाररथानां प्रतिष्ठानस्थिताय नमः ॐ प्रतिधाधनेभ्यो नमः ॐ प्रतिश्रवाय नमः ॐ प्रतरणाय नमः ॐ प्रत्युदीर्णाय नमः ॐ प्रत्यगात्मने नमः ॐ पातालवासिने नमः ॐ पाताल नमः ॐ पादञ्चलानां साब्धाय नमः ॐ पात्राय नमः ॐ पातिथ्यसंहर्त्रे नमः ॐ पित्रे नमः ॐ पितृणां पित्रे नमः ॐ पितामहाय नमः ॐ पितृमात्रे नमः ॐ पितामहशिरश्चेतप्रवीणकरपल्लवाय नमः ॐ पितृणां पतये नमः ॐ पीताय नमः ॐ पीतवर्णाय नमः ॐ पीतवदनाय नमः ॐ पीतशुक्लाय नमः ॐ पीतछत्राय नमः ॐ पीतवाससे नमः ॐ पीताम्बरधराय नमः ॐ पीताम्बरविभूषणाय नमः ॐ पीततरुणपूर्ववदनाय नमः ॐ प्रीताय नमः ॐ प्रीतवदनाय नमः ॐ प्रीतिमते नमः ॐ प्रीतिवर्धनाय नमः ॐ पुत्रपूजिताय नमः ॐ पुत्रधाय नमः ॐ पुत्रिणे नमः ॐ भूतात्मने नमः ॐ भूतानां प्रभवे नमः ॐ प्रेतचारिमहाशक्तये नमः ॐ प्रेतमनसे नमः ॐ प्रेधासनाय नमः ॐ प्रेतचारिणे नमः ॐ प्रेतात्मने नमः ॐ प्रेतानां पुरहर्त्रे नमः ॐ पत्याय नमः ॐ पतीनां पतये नमः ॐ प्रतमाय नमः ॐ पृथिव्यै नमः ॐ पृथ्वीव्यापिने नमः ॐ पृथिव्यात्मने नमः ॐ पृथ्वीपतये नमः ॐ पृथ्वीरथाय नमः ॐ पृथ्व्याधितत्त्वप्रतिष्ठिताय नमः ॐ पदक्षिणकराङ्गुलिकाय नमः ॐ पद्मेश्वराय नमः ॐ पद्मनिधये नमः ॐ पद्मनीवल्लभप्रियाय नमः ॐ पद्मनापाय नमः ओम नम ओगर्भाय ओम ओं पदमाचल्निभाय नम ओम पद्म्रििया नम ओं पद्मस्ताय नम ओं पद्मलोचनाय ओम ओं पदमासनाय नम ओं पद्मा नम ओं पद्मनालाग्रा नम ओम पद्म नम ॐ पद्माय नमः ॐ पद्मावतीप्रियाय नमः ॐ पद्मपराय नमः ॐ पद्मवर्णाय नमः ॐ पद्मिनीपदिन्तालिदमनाय नमः ॐ पद्मासनरताय नमः ॐ पद्माभवकत्रनेत्राय नमः ॐ प्रसि पविद्युत्कनकाभाषाय नमः ॐ प्रदीपाय नमः ॐ प्रदीपविमलाय नमः ॐ प्रदीक्षिणे नमः ॐ प्रधानात्मने नमः ॐ पद्यकद्यविशारदाय नमः ॐ पादाय नमः ॐ पादात्वनीरमांसादिकाय नमः ॐ पादाभस्मृते संहर्त्रे नमः ॐ पादहीनाय नमः ॐ पादिमेत्राय नमः ॐ पादसुशृणाशक्तनागनारसमावृताय नमः ॐ पादभिन्नाहिलोकाय नमः ॐ प्रधानाय नमः ॐ प्रधानपुरुषाय नमः ॐ प्रधानपुरुषेशाय नमः प्रदानप्रभवे नमः ॐ प्रधानधृते नमः ॐ पन्दकाय नमः ॐ पन्दगाङ्गाभाय नमः ॐ पन्दनागारादये नमः ॐ पिनाकिने नमः ॐ पिनाकाय नमः ॐ पिनाधृते नमः ॐ पिनाभृते नमः ॐ पिनाकहस्ताय नमः पम्बतविशालाक्षाय नमः ॐ प्रभन्तदुःखनाशिने नमः ॐ प्रपञ्चनाशकल्पान्तभैरवाय नमः ॐ प्रब्याय नमः ॐ प्रपितामहाय नमः ॐ प्रपञ्चनाम नमः ॐ पाभग्नाय नमः ॐ पापहारिणे नमः ॐ पापारये नमः ॐ पापनाशनाय नमः ॐ पापनाशकराय नमः ॐ पापराशिराय नमः ॐ पापनाशाय नमः प्रफुल्लनीलपङ्गजप्रपञ्चकालिङ्प्रभाविडाम्बिकण्डकन्दलि रुचिप्रभद्धकन्धराय नमः ॐ प्रभवे नमः ॐ प्रपञ्चनाय नमः ॐ प्रभाकराय नमः ॐ प्रभवाय नमः ॐ प्रविन्नाय नमः ॐ प्रभावाय नमः ॐ प्रभूतप्रसिदाय नमः ॐ प्रभामण्डलमण्डिताय नमः ॐ प्रमथाय नमः ॐ प्रमदाधिपाय नमः ॐ प्रमत्याय नमः ॐ प्रमथनाय नमः ॐ प्रमतस्वामिने नमः ॐ प्रमतभूतगणसेविताय नमः ॐ प्रमधातिनादाय नमः ॐ प्रमदेशाय नमः ॐ प्रमदेन्दरवृताय नमः ॐ प्रमाणाय नमः ॐ प्रमाणभूताय नमः ॐ प्रमाणज्ञाय नमः ॐ प्रमाणबाधातिविवर्जिताय नमः ॐ प्रमादिने नमः ॐ प्रमुदितात्मने नमः ॐ प्रमुदिताय नमः ॐ प्रमषाय नमः ॐ प्रेमोधाय नमः ॐ पयोनिदये नमः ॐ प्रयोगाय नमः ॐ प्रियव्रताय नमः ॐ प्रियव्रतसमाराध्याय नमः ॐ प्रियाराध्याय नमः ॐ प्रियकृते नमः ॐ प्रियसम्मताय नमः ॐ प्रियभक्ताय नमः ॐ प्रियंवदाय नमः ॐ प्रियाय नमः ॐ प्रियकराय नमः ॐ प्रियदर्शनाय नमः ॐ प्रियं वधश्रेष्ठाय नमः ॐ प्रियसन्दर्शनाय नमः ॐ प्रियनारायणाय नमः ॐ प्रियकैलासाय नमः ॐ प्रियभूषणाय नमः ॐ परिच्छेदरहिताय नमः परासर्वशिष्टमार्कण्डेय आपस्तम्बभूतायनवर्गदीक्षा कागस्त्याधि पञ्चकदीक्षा गुरुभूतपञ्चकवदनाय नमः